मुद्गलपुराण खंडम टू एकचर अध्याय वन ब्रह्मसृष्टिप्रारंभेशा नम शौनकाद्या ऊजु सूद महाभागिया कृत वयंता अतुलं वक्रतुण्डस्य चरित्रम् श्रावितं महद धन्योऽसि त्वमहाबुद्धे सर्वज्ञोऽसि विशेषतः परिपृच्छामहेतस्त्वा तद्वदस्व यद्धार्थदः श्रुत्वा श्रुत्वा जायते मृतपानवद अतस्त्वमेकदन्तस्य चरित्रं वद साम्प्रतं कस्मिन् ब्रह्मणि संस्थोयमेकदन्तो गजाननः कदि तस्यावताराश्च किं कर्म वदनिश्चितम् इति सम्प्रार्थितसूदस्तानुवाच महामुनि प्रश्रया वनदो भूत्वा भक्रिया प्रणोद चक्षेण परिपृष्टो महामुन मुद्गलोवाच ततृणुं मुनीस्रा दक्ष उवाच पुरातन वा महत्मस्ति मे मुनिमा तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः चश्रुदं च श्रुतं तव मुखाम्बुजाद तेन विश्रान्तदाप्राप्ता हृदये मे विशेषदः यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो हर्षयुक्तकृतोदो भक्रियाढुण्ढेस्तु एकदन्द एकदन्तचरित्रं मे कथयस्वविशेषतः किं कर्मा कथमुत्पन्नकदन्तो गजाननः किंवाहनसमायुक्तकीदृशं ब्रह्म तस्य वै इत्यादि सर्वमाख्यानम् वद मां करुणानिधे सूत उवाच एवं पृष्टो महाते जास्तमुवाच प्रजापतिं भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिते मुद्गल उवाच शृणु दक्षत्वया पृष्ठं सर्वपापप्रणाशनं एकदन्तस्य माहात्म्यम् भुक्तिमुक्तिफलप्रदं धन्योऽसि त्वमहाभाग येन ते श्रवणे रदिः गजाननस्य देवस्य चरित्रे सर्वभावतः अत्रते ते वर्णयिष्येहमिति भाष्यं पुरातनं गृत्समदस्य संवादं प्रह्लादस्य महात्मनः श्रुत्वा मुद्गलवाक्यम् तद्दक्षो कृष्णमना मुने उवाच तम् महर्षिं स प्रश्रया वनतस्वयम् दक्ष उवाच ब्रह्मणसृष्टिमारभ्य सृष्टिमार्गम् वद प्रभो यधात्रिभुवनम् सृष्टम् ब्रह्मणा विश्वयोनिना तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति गृत्समदस्य संवादं यथावद्वर्णय प्रभो सूत उवाच दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाचः सृष्टिमार्गम् पुरावृत्तं शापमोहिदमादराद मुद्गल उवाच शृणुदक्षमहाबुद्धे ब्रह्मालोकपितामहः ससर्जविविधं विश्वं तथा ते कथयाम्यहम् गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे योगमायां समास्थाय विवेशासौ जनार्दनं निलीय तस्मिन्नब्दान्ते नाभिपद्माद्विनिःसृतः वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः तत्र पद्मे समासीनोऽध्यायन् हेरम्बमन्तरे ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशोदश दश तस्मिन् जले निमग्नोऽभूद् बभ्रामभ्रान्तमानसः सस्मारगणनाथं तं विभो पाहि भयानपाद मज्जन्तं मां जलाद्धुण्ढे वक्रतुण्ड नमोस्तुते। स्मृतिमात्रेण तत्राक्षौ ददर्शवडमुत्तमं तत्र पत्रे गणेशानं सूक्तं दृष्ट्वा प्रहर्षितः त्रिनेत्रं च चतुर्बाहुं शुण्डादण्डविराजितं महोदरं शेषनाभिम् बालचन्द्रं किरीडिनम् सर्वावयवसम्पूर्णं नानाभूषणभूषितं वस्त्रै सञ्चादितं बालमङ्गुष्टपरिमाणकं एतादृशं गणेशानां दृष्ट्वा विस्मितमानसः महाजले वडो योऽयमवशिष्ठ कथं जले वडस्य सन्निधानेच च ययौ ब्रह्मा प्रजापदे शिषे च जलं ब्रह्मणि शुण्डया तेन हृष्टस्वयं ब्रह्मा तुष्ठावसगजाननं बद्धाञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः ब्रह्मोवाच नमस्ते वडपत्र प्रलयांबुविहारिणे वडपत्रशा वेरंबा नमो नम चुर्भुजरा नाभिशेषा ते नम गजवक्शंबोदर नमोस्तु यगदंताय वैतुभ्यं नाशोभासम अङ्गुष्टपर्वमात्रं च स्वरूपं दधते नमः भक्त भक्तसंरक्षकाय च आनन्दविभवायैव गणेशाय नमो नमः निर्गुणाय गुणाधार सगुणाय नमो नमः एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते अनादिबालरूपाय सृष्टिस्थित्यन्धकारिणे मायाविमहामोहदात्रे तुभ्यं नमो नमः महा निवारय महाविघ्नं सृष्टिकर्तुर्गजानन जलं प्राप्तं महाखोरं तत्राशं मज्जिदो बलाद चरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल तव देवेश दासोऽहं कृपां कुरु दयानिधे ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्शः विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किला तदो नाना नानासमीरेण नीदो ब्रह्मा महोदरे तत्र विश्वं ददशासौ नानाश्चर्यमयं पुनः इत्येवं नानाण्डसंयुक्तमुदरं वीक्ष्य वीक्ष्यच प्रभो रोमद्वारेण ब्रह्मासौ बहिर्यादो यथा पुरा ददर्शतं गणेशानां बालरूपं सुविस्मितः तमुवाच तदो देवो ब्रह्माणं भक्तमुत्तमं श्रीगणेश उवाच त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेद् सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदं यः पडेच्छृणुयाद्वापि समे मान्यो भविष्यति यं यं चिन्तयदे भावं तं तं दास्यामि निश्चितम् नाभेर्कलमदो विष्णो निःसृतो वरदानतः तत्रादौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामः तेन त्वं विघ्नसंयुक्तपुनर्जातो न संशयः अधुनामे मे कृत्वा दृष्ट्वा मां विघ्नवर्जितः अतः विधे किञ्चित् त्वया कार्यं महामदे मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि यथा दृष्टं मदीयेद्य जगस्तावरजङ्गमम् उदरे तादृशं विश्वं सृजत् मेधुनादधे सद्यो गणेशो बालरूपद्रुक ब्रह्मापत्मे समासीनो यथा पूर्वं बभूव तदो गणेश जजाप कमलासन पूजयि य ध्यानसंस्थो बभूवः तस्य हृद्देश मध्ये सौ प्रकटोऽभूद्गजाननः तं न नाम स्वयं ब्रह्म पूजां चक्रेश मानसीं दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे आगदे हृदि मध्ये च ते ददौ विघ्नहारिणे यथा शास्त्रविधानेन तस्य पूजां प्रगृह्य सः अन्तर्धानं ययौ सद्यो सर्वनायकः अन्तर्हिदे गणेशाने हृदिस्थे ब्रह्मरूपिणि तं प्रणम्य स्वयं ब्रह्म सृष्टिं कर्तुं मनो दधे ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ब्रह्मसृष्टिप्रारम्भो नामप्रथमोऽध्यायः ॐ